ज्येष्ठ्यम् चमे न आधिपत्यम् आधिपत्यम् च आधिपत्यमित्याधिपत्यम् चमे मन्युः मन्युश्च चमे मे भामः भामश्च चमे अमश्च समे एम्भः अम्भश्च समे मे जेमा जेमाच समे मे महिमा महिमा समे मे वरिमा वरिमा समे मे प्रथिमा प्रथिमा समे मे अस्मा मा च समे मे द्राघुया द्राघुया च समे मे वृद्धम् वृद्धम् च समे मे वृद्धिश्च समे ए मे समे ए मे श्रद्धेति स्रत् भा समे मे जगत् जगच्च क्षमे मे धनम् धनम् च क्षमे मे वसः वशश्च क्षमे मे पिशिः विशिश्च क्षमे मे क्रीडा क्रीडा समे मे मोदः मोदश्च क्षमे मे जातम् जातम् च समे मे जनिष्यमाणम् जनिष्यमाणम् च क्षमे मे सूक्तम् सूक्तम् च सूक्तमिति सू उक्तम् मे सुकृतम् सुकृतम् च सुकृतमिति सुकृतम् समे मे वित्तम् वित्तम् च समे मे वेद्यम् वेद्यम् च समे मे भूतम् भूतम् च क्षमे मे भविष्यत् भविष्यच्च समे मे सुगम् सुगम् च सुगमिति समे मे सुपथम् सुपथम् च पथम् समे मरद्धम् वृद्धम् च समे मरुद्धिः वृद्धिश्च समे मे क्लृप्तम् क्लृप्तम् च क्षमे मे क्लृप्तिः क्लृप्तिश्च क्षमे मे मतिः माती मतिश्च क्षमे मे सुमतिः सुमतिश्च सुमतिरिति सो क्षमे म इति मे ज्येष्ठ्यम् चमे न आधिपत्यम् आधि